शिवगीता पञ्चदशोऽध्यायः श्रीराम उवाच भक्तिगीते कीदृशी देव जायते वा यया निर्वाणरूपम् तु लभते मोक्षम् उत्तमम् तद्ब्रूहि गिरिजाकान्त मयि ते अनुग्रहो यदि श्रीभगवानुवाच यो वेद अध्ययनम् यज्ञम् तानानि विविधानि च मदर्पणधिया कुर्यात् समेपक्तः समेप्रियः नर्यभस्मसमादाय विशुद्धं श्रोत्रियालयात् अग्निरींत्र यथाविधि उधूल गात्री तेन चाचति मस्तरा भक्ति मा न विद्य शिठे रुद्राक्षा धारे यहा पञ्चाक्षरी जपरतः समे भक्तः समे प्रियः भस्मच्चन्नो भस्मसाई सर्वदा विचितेन्द्रियः यस्तु रुद्रम् जपेन्नित्यम् चिन्तयेन्माम् अनन्यदीः स तेनैव च देहेन शिवः संजायते स्वयं। जपेद्यो रुद्रसूक्तानि तथाथर्वशिरः परम् कैवल्य उपनिषत्सूक्तम् श्वेतास्वतरमेव च तथ परतरो भक्तो मम लोकेन विद्यते अन्यत्र धर्मात् अन्यस्मात् अन्यत्र अस्मात् कृताकृतात् कृता अन्यत्र भूतात् भव्याच्च यत्प्रवक्ष्यामि तत् शृणु वदन्ति यत्पदम् वेदाः शास्त्राणि विविधानि च सर्व उपनिषदां सारम् तध्नो घृतमिव उद्धृतम् यदिच्छन्तो ब्रह्मचर्यम् चरन्ति मुनयः सदा तत्ते पदं सङ्ग्रहेण रवीबी ओमिति यत्पदम् एतदेव अक्षरं ब्रह्म एतदेवतदेव अक्षरं ज्ञात्वा एतदेव ब्रह्मलोके मुहीयते छन्दसां यस्तु धेनूनाम् ऋषभत्वेन चोदितः इदमेव पतिः सेतुः अमृतस्य च धारणा मेधसापि हि ते कोशे ब्रह्म यत्परम् ओभिति चतस्रस्तस्य तथा मकारश्च अवसाने अर्धमात्रेति परिकीर्तिता पूर्वत्र वेदो ब्रह्माष्टवसवस्तथा गार्गपत्यश्च गायत्री गङ्गाप्रातस्सवस्तथा द्वितीया च भुवो विष्णु रुद्रोऽनुष्टु यजुस्तथा यमुना दक्षिणाग्निश्च माद्यन्दिनसवस्तथा तृतीया च सुवःसामान्या आदित्यश्च महेश्वरः अग्निः आघवनीयश्च जगती च सरस्वती तृतीयं सवनं प्रोक्तम् अथर्वत्वेन यन्मथम् चतुर्थी या अवसाने अर्धमात्रा सोमलोकगा अथर्व अङ्किरसः संवर्तकः अग्निश्च मघस्तथा विराट्सभ्य आवसत्यौ च सुतुद्रिर्यज्ञपुच्चकः प्रथमा रक्तवर्णा स्यात् द्वितीया भास्वरामथा तृतीया विद्युदाभा स्यात् चतुर्थी शुक्लवर्णिनी सर्वम् जातम् जायमानम् तद् ओङ्कारे प्रतिष्ठितम् विश्वम्भूतम् च भुवनम् विचित्रम् बहुधा तथा जातम् जायमानं जायमानम् यत्तत्सर्वम् रुद्र उच्यते तस्मिन्नेव पुनः प्राणाः सर्वम् ओङ्कार उच्यते प्रविलीनं तत् ओङ्कारे परम् ब्रह्मसनातनम् तस्मात् ओङ्कारजापीयः तमुक्तो न अत्र संशयः त्रेताग्नेः स्मात्तवर्णेर्वा चैवाग्नेर्वा समाहृतम् पस्माभिमन्त्र्ययो माम् तु प्रणवे न प्रपूजये तस्मात्परतरो भक्तो मम लोके न विद्यते शालाग्नेर्दावन्नेर्वा तस्मादायाभिमन्त्रितम् यो विलिम्पदि गात्राणि स शूद्रोऽपि विमुच्यते कुशपुष्पैर्विलव्रदळैः पुष्पैर्वा संभवै। यो माम् अर्चयते नित्यम् प्रणवेन प्रियोहि हि सः पुष्पम् फलम् समूलं वा पत्रम् सलिलमेव वा यो दद्यात्प्रणवैर्मह्यम् तत्कोटिगुणितम् भवेत् अहिंसा सत्यं अस्तेयं, शौचम् इन्द्रियनिग्रहः यस्य अस्ति अध्ययनं नित्यम् समे भक्तः समे प्रियः प्रदोषे यो मम गत्वा पूजयते तु माम् स पराम् श्रियमाप्नोति पश्चात्मयि विलीयते अष्टम्याम् च चतुर्दश्याम् पर्वणोः उभयोरपि भूतिभूषितसर्वाङ्गो यः पूजयति मां निशि कृष्णपक्षे विशेषेण समे भक्तः समेऽप्रियः एकादश्याम् उपोष्यैव यहा पूजयति मां निशि सोमवारे विशेषेण समे भक्तो न नश्यति पञ्चामृतैः स्नापयेत्यः पञ्चगव्येन वा पुनः पुष्पोदकैः कुशजलैः तस्मान् नान्यः प्रियो मम पयसा सर्पिषा वापि मधुना इक्षुरसेन वा पक्व आम्रफलजेनापि नारिकेलजलेन वा गन्धोदकेन वा मां यो रुद्रमन्त्रम् समुच्चरन् अभिषिञ्चेत्ततो नान्यः कच्चित्प्रियतरो मम आदित्यभिमुखो भूत्वा ऊर्ध्वबाहुर्जले स्थितः माम् जायन् रविबिम्बस्तम् अथर्व अङ्गिरसं जपेत् प्रविशेन्मे शरीरेऽसौ गृहम् गृहपतिर्यता ग्रिख बृहद्रतन्तरम् वामदेव्यम् देवव्रतानि च यद्योगया आज्यदोहांश्च मग्रता इीय परां भुक्त मम सायुज्य ईशावाश्यादेम मग्रता मज्यमी मम लोके महय भक्ति मैं प्रोक्त एवं रघुकुलोद्भव सर्वकामप्रदो मत्तः किमन्यत् श्रोतुमिच्छसि इति श्रीशिवगीतासु उपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे शिवराघवसंवादे भक्तियोगो नाम पञ्चदशोऽध्यायः